पुष्पदन्तौ उवाच महिम् नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः हरनिरपवादः परिकरः अतीतः पन्थानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि स कस्य स्तोतव्यः कतिविधगुणः पदे त्वर्वाचीने पतति न मनः कस्य परमममृतं निर्मितवतः तव ब्रह्मन् किं वा गपिसुरगुरोर्विस्मयपदम् मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता तवैश्वर्यम् यत्तज्जगदुदय रक्षा प्रलय कृत् त्रयी अभव्यानामस्मिन् वरद विहन्तुं व्याक्रोशीं विदधत इहैकजडधियः किमीहः किं कायः स खलु सृजति किमुपादान इति च अतर्क्यैश्वर्ये त्वय्यदवसरदुस्थो कुतर्कोयं कुतर्कोऽयं मुखरयति मोहाय जगतः अजन्मानो लोकाः किमवयववन्तोऽपि जगताम् अधिष्ठातारम् किम् भवविधिरनादृत्य भवति अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे त्रयीसाङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च वैचित्र्याद्रुजुकुटिल वैचित्र्यादृजुकुटिलनापथजुषाम् नृणामेको गम्यस्त्वमसि पयसामर्नव महोक्षः खट्वाङ्गं परशुरजिनं भस्मफणिनः कपालं चेति यत्तव वरदतन्त्रोपकरणम् सुरास्तां तां वृद्धिं दधति न हि स्वात्मा रामं विषय मृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदम् परो ध्रव्या ध्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मितैव तु वञ्जिह्लेमि त्वां धृष्टा मुखरता तवैश्वर्यं यत्नाद्यदुपरि विरञ्चिर्हररधः परिच्छेतुं याता वनलमनलस्कन्धवपुषः ततो भक्ति श्रद्धा भरगुरुगृणद्भ्याम् गिरिशयत् स्वयं न स्थेताभ्यां तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरम् दशास्यो यद्बाहू न भृतरणकण्डूपरवशाम् शिरः पद्मश्रेणीरचितचरणम्भोरुह भलेः रायास्त्वभक्तेस्त्रिपुरहरविस्फूर्जितमिदम् अमुष्य त्वत्सेवासमधिगतसारम् भुजवनम् बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ध्रुवमुपचितो मुह्यति खलः यदृद्धिं सुत्राम्नो वरदपरमोच्चैरपि सति मधश्च के बाणः परिजनविधेयस्त्रिभुवनः न तच्चित्रं तस्मिन् परिवसितरि त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिसस्त्वय्यवनतिः अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यासीत् यस्त्रिनयन विषं संहृतवतः सकल्माशः कण्ठे तव न कुरुते विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जैनो यस्य विशिखाः स पश्यन्नीश स्मर स्मर्तव्या वशिशु पथ्य पिभव मही पादाघाता व्रजति सहसा संशय पद पद विष्णुर्भ्रामम्य भुजपरीघरुग्रहगण मुहुर्द्योदौस्थ्यम यातृत जटाताड़ा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता वियद्व्यापीतारागणगृणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः जगद्वीपाकारं जलधिवलयं तेन अनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः रथश्रोणीयन्ताशतधृतिरगेन्द्रो धनुरथो रथङ्गे चन्द्रार्कौ रथचरणपाणिः शरयिति दिघक्षोस्ते कोयं त्रिपुरतृणमाणं वरविधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुदियः हरिस्ते साहस्रं कमलबलिमाधाय पदयोः अदेको नेतस्मिन् निजमुदहरन्नित्रकमलम् गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् क्रतौ सुक्ते जाग्रत्वमसि फलयोगे क्रतुमताम् क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम् श्रुतौ श्रद्धां बुद्ध्वा कृतपरिकरः कर्मसुजनः, क्रियादक्षोदक्षः, क्रिया दक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम् ऋषीणामार्त्विज्ञं सुरगणाः क्रतुर्भ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धा विधुरमभिचारायहि मखाः प्रजानाथं नाथ प्रसभमभिकं स्वान्दुहितरम् गतं रोहिद्भूताम् रिरमयिषु मृष्यस्य वपुषा धनुष्पाणेर्यातं दिवमपि सपत्रा त्रसन्तं तेद्यापि त्यजति न मृगव्याधरभसः स्वलावण्याशंसा घृतधनुषमह्नाय तृणवत् पुरः प्लुष्टम् दृष्ट्वा पुरमथनपुष्पायुधमपि यदि देवो यमनिरतदेहार्घटना दवैति त्वामद्धावत वरदमुग्धा युवतयः श्मशानेष्वा क्रीडा स्मरहरपिशाचा सहचराः चिताभस्मालेपः स्रगपि परिकरः अमङ्गल्यं शीलं तव नामैव अखिलम् तथापि स्मर्तृणा वरद परमं मङ्गलमसि मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः यदा लोक्याह्लादम् हृदयिव निमज्जायामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमस्त्वससि पवनस्त्वं हुतवहः त्वमापस्त्वं व्योमत्वमुधरणिरात्मा त्वमिति च परिच्छिन्नामेवम् त्वै परिणता बिभ्रतु गिरम् न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि त्रयि तिस्त्रोवृत्तिस्त्रिभुवनमथोत्रीनपि सुरान् अकाराद्यैर्वर्णे स्त्रिभिरविदधत्तीर्न तुरियं ते ध्वनिभिरवरुन्धानमणुभिः तमस्तं व्यस्तं त्वां शरणदगृणात्योमिति पदम् भवः शर्वो रुद्रः पशुपतिरथोग्रह यदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकम् प्रविचरति देवश्रुतिरपि प्रिया यास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमः क्षोधिष्ठाय स्मरह च नमो नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमो प्रमहसि पदे निस्त्रैगुण्ड्ये शिवाय नमो नमो कृशपरिणति चेतः क्लेशवश्यं क्व चेदम् गुणसीम उल्लङ्घिनी इति चकितमममन्दी कृत्य मां भक्तिराधा वरदचरणयोस्ते वाक्यपुष्पोपहारम् हसितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरवरुशाखा लेखनी पुत्रमुर्वी लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणाना ईशपारं न याति असुरसुरमुनीन्द्रैः अचितस्येन्दुमौलेः ग्रथितगुणमहिन्नो निर्गुणस्येश्वरस्य सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार अहरहनवद्यं धूर्जटेः स्तोत्रमेतत् स्तोत्रमेतत। पठति परमभक्त्या शुद्धचित्तः सभवति शिवलोके रुद्रतुल्यस्थतात्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च महेशान्नापरो देवो महिं नो नापरा स्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् दीक्षादानं तपस्तीर्थम् ज्ञानं यागादिकाह क्रियाः महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीं कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेः देवदेवस्य दासः स भ्रष्टये एवास्य रोषात् स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुम् पठति यदि मनुष्यः व्रजति शिवसमीपं किन्नरैस्तूयमानो स्तवनमिदमोघं पुष्पदन्तप्रणीतम् आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारि शिवमीश्वरवर्णनं तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर यादृशोऽसि महादेव तादृशाय नमो नमः एककालं का द्विकालं वा त्रिकालं यः पठेन्नरः सर्वपापविनिर्मुक्तः शिवलोके महीयते श्रीपुष्पदन्त मुखपंकज निर्गतेन स्त्रेण किलबिश हरेण हर प्रियण कंठस्थि पठितेन स्रेणि भूतपतिमहेशा वमयी पूजा श्रीम्छंकर अर्पितातेन तेन देवेशः प्रीयतां मे सदाशिवः